हरि ओम् श्री सीतः रामचन्द्रभ्यो नमः अथ श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे प्रथमस्तर्ग श्रीरामसद्गुणानाम् वर्णनम् श्रीरामम् यौवराज्ये स्थापयितुम् दशरथसविचार तदर्थमन्त्रणाम् कर्तुम् विभिन्ननरेशानाम् पौराणाम् जानपदानाम् च राज्ञा स्व सम्प्रति गच्छता मातुलकुलम् पतेन तदा नघ शत्रुघ्नो नित्यशत्रुघ्नो रीतप्रीति पुरस्कृतः स तत्र निवसत् भ्रात्रा सत्कार सत्कृतः मातुलेन शुपतिना पुत्र स्नेहेन लालितः तत्रापि निवसन्तोतौ तर्प्यमाणौ च कामतः भ्रातरौ स्मरताम् वीरो वृद्धम् दश रथम् नृपम् राजा पीतौ महातेजा तस्मात् प्रोषितौ सुौ उभौ भरत शत्रुघ्नौ महेन्द्रे वरुणोपमौ सर्वैव तस्येष्ट भय स्वशरीराद् निर्वृत्वा चत्वार इव वासवः तेषामपि महातेजा रामो रतिकः पितुः स्वयम्भूव भूतानाम् बभूव गुणवत्तरः स हि देवै उदीर्णस्य रावणस्य वधार्थिभिः अर्थितो लोके यज्ञे विष्णुसनातनः कौसल्याशु शुभेतेन पुत्रेण मिदतेजसा यथावरेण देवानाम् अतिथिर्व्रजपाणिना सहि रूपोपपन्नश्च वीर्यवाननसूयकः भूमोऽपमसूनो गुणै दशरथोपमः सन्नित्यम् प्रशान्तात्मा मृदपूर्वम् च भाषते उच्यमानोऽपि परुषम् नोत्तरं प्रतिपद्यते कदाचित् उपकारेण कृते नैकेन तुष्यति न स्मरति अपकाराणाम् शतम् अप्यात्मवत्तया शीलवृद्धये वयोवृद्धै च सज्जनैः कथयन्नास्त वै नित्यम् अत्र योग्यान्तरेष्वपि बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियं वदः वीर्यवान्न च वीर्येण महता स्वेन विस्मितः न, विस्मित न चानृतकथो विद्वान् वृद्धानाम् प्रति पूजकः अनुरक्त प्रजाभिः च प्रजाश्चाप्यनुरज्यते सानुक्रोशो जितक्रोधो ब्रह्मण प्रतिपूजकः दीनानुकम्पी धर्मज्ञो नित्यम् प्रग्रहवान् शुचिः कुलोचितमतिक्षात्रम् स्वधर्मम् बहु मन्यते मन्यते पर्या महत्सर्गः फलं ततः नाश्रेयसी रतो यश्च न विरुद्ध कथा रुचिः उत्तरोत्तरयुक्तीनां वक्ता वाचर्यथा सर्वगस्तरुण वाग्मी वपुष्मान् देशकालवीत् लोके पुरुषसारज्ञ साधु विनिर्मितः स तु श्रेष्ठये गुणैर्युक्तये प्रजानां पार्थिवात्मजः बहिश्चरैव प्राणो बभूव गुणतप्रियः सर्वविद्यावृतो स्नातो यथावत् साङ्गभेदवेत् इश्वस्त्रे च पितु श्रेष्ठो बभूव भर्ताग्रजः कल्याणाभीजनसाधु सत्य वा गृजुः गुरु वृद्धे अभि विदितश्च द्विये धर्मार्थदर्शिभिः धर्मकामास तत्त्वज्ञ श्रुतिमान् प्रतिभन् लौकिके समयाचारे कृतकल्पो विशारदः निभृतः संवृताकारो गुप्तमन्त्र सहायवान् अमोघे क्रोधहर्षश्च त्यागसंयमकालवेत् दृढभक्ति स्थिरप्रज्ञो नासद्ग्राही न दुर्वचः नितन्द्रीरप्रमत्तश्च स्वदोष परदोष वीत् शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः य प्रग्रहानुग्रहयो यथा न्यायं नुग्रहणे स्थानविन्निग्रहस्य च आयकर्म निपायन्य सन्धृष्टयकर्म शैष्ठं चात्र समूहेषु प्राप्तो व्यामिश्रकेषु च अर्थधर्मो च संगृह्य सुखतन्त्रो न चालसः वैहारिकाणां शिल्पानाम् विज्ञातार्थ विभागवेत् आरोहे विनये चैव युक्तो वारणवादिनाम् धनुर्वेदविदाम् श्रेष्ठौ लोके तीरथसम्मतः अभियाता प्रहृता च सेनानय विशारदः अप्रधुष्यश्च सङ्ग्रामे क्रुद्धैरपि सुरासुरै अनसूयोजितक्रोध न नचमत्सरी न च मत्सरी नावज्ञेयश्च भूतानाम् न ना च कालेवशानुग एवं श्रेष्ठै गुणर्युक्ते प्रजानाम् पार्थिवात्मजे सम्मत त्रिशु लोकेषु वसुधाया क्षमा तुल्यो विध्ये चापि शचीपते तथा सर्वः प्रीति सञ्जनैपितुः गुणैर्विरुचे रामो दिग्धसूर्य एवंशुभि तम् एवम् मृतसम्पन्नम् अप्रधुष्य पराक्रमम् लोकनाथोपमम् नाथम् एकामाय समेदिनी एतैस्तु बहुभि युक्तम् गुणैरनुपमयसुतम् दृष्ट्वा दश चक्रे चिन्तां परन्तपः अथ राज्ञो बहुवैव वृद्धस्य चिरजीविनः प्रीतिरेषाय कथं रामो जीवति एषा ह्यस्य प्रीति हृदि सम्परिवर्तते कदा नाम सुतं अहं प्रियं वृद्धिकामो सर्वभूतानुकम्पकः मत्त प्रियतरो लोके पर्जन्य इव वृष्टिमान् यमाशक्र समो वीर्ये बृहस्पति सममतौ महीधर समो धृत्याम् मही मत्तश्च गुणवत्तरः महीं हं यमाम् कृष्णाम् अधिष्ठिष्ठन्तमात्मजम् अनेन वैसा दृष्ट्वा यथा स्वर्गमवाप्नुयात् इत्येवं विविधतैतैः अन्यपार्थिव दुर्लभैः शिष्टैः परिमेयैश्च लोके लोकोत्तरैर्गुणैः तं समीक्ष्य तदा राजा युक्तम् तामुदितेर्गुणैः निश्चित्य सचिवै सार्धम् यौवराजम् अमन्यते दिव्यन्तरीक्षे भूमौ घोरमुत्पादयम् भयम् पञ्चचक्षेथ मेधावी शरीरे चात्मनो जनाम् पूर्णचन्द्रानन स्याथ शोकापनुदमात्मनः लोके रामस्य बुभुधे सम्प्रियत्वम् महात्मनः आत्मनश्च प्रजानाम् च श्रेयसे च प्रियेण च प्राप्ते काले स धर्मात्मा भक्तवान्न नृपे नगर वास्तव्य पृथक जान पल नी सामनाय्या प्रधान पृथ्वीपतिश्मनाभ यथारह प्रतिपूजता ददर्शाल राजा प्रयापतीय न तो के क राज जनकम् वा नराधिपे त्वरया चानयामासे पश्चात्तो श्रोत श्रोष्यत प्रियम् अथोपविष्टे नृपतौ तस्मिन् परपुरार्दने तत प्रविचो शेषः राजानो लोकसम्मतः अथ राजवितीर्णेषु विविधे श्वासनेषु च जानम्मेवाभिमुख निषे दुर्नियता नृपः सलब्धमानैर्वनयान्वितैर्नृपै पुरालये जानपदे च मानवै उपप्रविष्टै नृपतिर्विर्वृतो बभौ स स चक्षुर्भगवान् निवामलै इत्याशि श्रीमन् रामायणे वाल्मीकीयाधिकारे अयोध्याकाण्डे प्रथम स्वर्ग है श्री सीता रामचंद्र वनमसु